ैको न त्रिंशः सर्गः खरन्तु विरथम् रामो गदापाणिमवस्थितम् मृदुपूर्वम् महातेजाः परुषम् वाक्यमब्रवीत् गजाश्वरथ सम्बाधे बले महति तिष्ठता कृतम् ते दारुणं कर्म सर्वलोकजुगुप्सितम् उद्वेजनीयो भूतानाम् नृषम् सः पापकर्म त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति कर्मलोकविरुद्धम् तु कुर्वाणम् क्षणदाचर तीक्ष्णम् सर्वजनो हन्ति ती सर्पम् दृष्टमिवागतम् लोभात् पापानि कुर्वाणः कामाद्वायो न बुध्यते हृष्टः पश्यति तस्यान्तम् ब्राह्मणी करकादि वसतो दण्डकारण्ये तापसान् धर्मचारिणः किम् हत्वा महाभागान् फलम् प्राप्स्यसि राक्षसा न चिरम् पापकर्माणः क्रूरा लोकजुगुप्सिताः ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्णमूला इव लभते कर्ता फलम् पापस्य कर्मणः घोरम् पर्यागते काले द्रुमः न प्राप्यते लोके पापा कर्मण फल सषाण मिवा भुक्ता क्षणाचरा पाप्चरता घोरम् लोकस्या प्रिय अहमादिराजा प्राणा हंत निशाचर अद्य मैया मुक्ता शरान भूषण विदार्यातिपतिष्यन्ति वल्मीकमिवपन्नगाः ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः तानद्य निहतः सङ्ख्ये ससैन्योऽनुगमिष्यसि बाणैः पश्यन्तु परमर्षयः निरयस्थम् विमानस्थ ये त्वया पुरा प्रहरस्व यथा कामम् अद्य ते पातयिष्यामि शिरस्तालफलम् यथा एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः प्रत्युवाच ततो रामम् प्रहसङ्क्रोधमूर्च्छितः प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मजा आत्मना कथमात्मानमप्रशस्यम् प्रशंसी विक्रान्ताबलवन्तो वा ये भवन्ति नरर्षभाः कथयन्ति नते ते किञ्चित् तेजसा चातिगर्विताः प्राकृतास्वकृतात्मानो लोके क्षत्रियपांसनाः निरर्थकम् विकथन्ते यथा रामविकथसे कुलम् जपदिशन् वीरः समरेकोऽभिधास्यति मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवेस्तवम् सर्वथा तु लघुत्वम् ते कथतेन विदर्शितम् सुवर्णप्रतिरूपेण तप्तेनैव कुशाग्निना न तु मामिह गदाधरं पश्यसि त्वम् गदाधरम् धराधरमिवाकम् क्यम् पर्वतम् धातुभिश्चितम् पर्याप्तोऽहम् गदापाणिर्हन्तम् प्राणान् रणे तव त्रयाणामपि लोकानाम् पाशहस्त अस्तम् प्राप्नोति सविता युद्धविघ्नस्ततो भवेत् चतुर्दशसहस्राणि राक्षसानाम् हतानि ते त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम् इत्युक्त्वा परमक्रुद्धः सगदाम् परमाम् गदा खरश्चिक्षेप रामाय यथा खर बाहुप्रमुक्ता प्रदीप्ता महती गदा भस्मवृक्षांश्च गुल्मांश्च कृत्वा गात् तत्समीपतः तामापतन्तीम् महतीम् मृत्युपाशोपमाम् शरै। गदा अन्तरिक्षगताम् रामश्चिच्छेदबहुधा शरैः सा पपातधरणीतले गदा मन्त्रौषधिबलैर्व्यालीमविनिपातिता त्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनत्रिंशत्